दशाधिकशततमः सर्गः ततो निक्षिप्य मातृस्त अयोध्यायाम् दृढव्रतः भरतः शोकसन्तप्तो गुरुनिदमथा ब्रवीत् नन्दिग्रामम् गमिष्यामि सर्वानामन्त्रयेत्रवः तत्र दुःखमिदम् सर्वं सहिष्ये राघवम् विना गतश्चाहो दिवम् राजा वनस्थः गुरुर्मम रामं प्रतीक्षे राज्याय स हि राजा महायशाः एतच्छ्रुत्वा शुभम् वाक्यम् भरतस्य महात्मनः अब्रुवन्मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः सुभृशम् श्लाघनीयम् च यदुक्तम् भरत त्वया वचनम् भ्रातृवात्सल्यादनुरूपम् तवैव तत् नित्यन्ते भ्रातृसौहृदे मार्गमार्यम् प्रपन्नस्य नानुमन्येतकः पुमान् मन्त्रिणाम् वचनम् श्रुत्वा यथाभिलषितम् प्रियं। अब्रवीत्सारथिम् वाक्यम् रथो मे युज्यतामिति प्रहृष्टवदनः सर्वा मातृसमभिभाष्य च श्रीमान् शत्रुघ्नेन समन्वितः आरुह्यतुरथम् क्षिप्रम् शत्रुघ्नभरताबुभौ ययतः परमप्रीतौ भृतौ मन्त्रिपुरोहितैः अग्रतो गुरवः सर्वे वसिष्ठप्रमुखा द्विजाः प्रयुः सर्वे नन्दिग्रामो यतो भवेत् बलम् च तदनाहूतम् भरते या सर्वे च पुरवासिनः धर्मात्मा भरतो भ्रातृवत्सलः नन्दिग्रामम् ययौ तूर्णम् शिरस्यादाय पादुके भरतस्तु ततः क्षिप्रम् नन्दिग्रामम् प्रविश्य सः अवतीर्य रथा तूर्णम् गुरूणिदमभाषत एतद्राज्यम् मम भ्रात्रा दत्तम् सन्न्यासमुत्तमम् योगक्षेमवहे चेमे पादुके हेमभूषिते भरतः शिरसा कृत्वा पादुके ततः अब्रवीद्दुःखसन्तप्तः सर्वम् प्रकृतिमण्डलम् छत्रम् धारयत क्षिप्रमार्यपादाविमौ मतौ आभ्याम् राज्ये स्थितो धर्मः पादुकाभ्याम् गुरोर्मम भ्रात्रा तु मयि प्रति क्षिप्रम् संयोजयित्वा राघवस्य पुनः स्वयम् शरणौ तव तो, तो रामस्य द्रक्ष्यामि सह पादुकौ ततो निक्षिप्तभारोऽहम् राघवेण समागतः निवेद्य गुरवे राज्यं भजिष्ये गुरुवर्तिता राघवाय च सन्न्यासम् दे मे वरपादुके राज्यम् चेदमयोध्याम् च धूतपापो भवाम्यहम् अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने प्रीतिर्ममयशश्चैव भवेद्राज्याच्चतुर्गुणम् एवम् तु विलपन्दीनो भरतः स महायशाः नन्दिग्रामे करो द्राज्यम् दुःखितो मन्त्रिभिः सह नन्दिग्रामे वसद्धीरः भरतस्तदा रामागमनमाकाङ्क्षम् भरतो भ्रातृवत्सलः भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तदा पादुके त्वभिषिच्याथ नन्दिग्रामे वसत्तदा सवालव्यजनम् छत्रम् धारयामास स स्वयम् भरतः शासनम् सर्वम् पादुकाभ्याम् निवेदयन् रतस्तु भरतः श्रीमानभिषिच्यार्यपादुके तदधीनस्तदा राज्यम् कारयामास सर्वदा तदा हि यत् कार्यमुपैति किञ्चिदुपायनम् चोपहृतम् महार्हम् प्रथमं प्रथमम् निवेद्य चकार पश्चाद्भरतो यथावत् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चदशाधिकशतमः